नमो नमः सर्वेषां स्वागतं नमो नमः राधा भगिनी स्वास्थ्य सम्यक् नास्ति इति हरि ओं नमो नमः नमस्कारः स्वागतम् आरम्भं कुर्मः अस्तु वीणा भगिनी नमस्कारः नमो नमः प्रार्थनया आरम्भं कुर्मः वीणा भगिनी वदति वा प्रार्थना वदति वा मम ध्वनिः सम्यक् अस्ति खलु श्रूयते वाूयते अस्तु समस्या अस्ति इति मन्ये जयन्ती भगिनी भवती वदति वा प्रार्थना वदामि एकनिमिषम् ॐ वक्रतुण्डमहाकाय कोटिसूर्यतमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्यः सर्वदा सरस्वति न मत्तुभ्यम् वरदे कामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे कदा या कुन्देन्दु या सुभ्रवत्रान्विता या हीनावरदण्डमण्डितकरा या श्वेतपद्माकरा या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदा पूजिता सा माम् पातु सरस्वती भगवते लक्ष्मीकान्तं गमनयनं वन्दे विष्णुं सर्वलोकैकनाथम् हरि ओम् श्रीकृष्णात्मस्तु हरि ओम् नमस्कारः पुनः एकवारं सर्वेषां स्वागतम् अस्तु अध्यदिनस्य गत गतसप्ताहे वयं परस्मैपदी धातवः विषयस्य विषये तत्र परस्मैपदी धातु अस्ति चेत् लट् लकार प्रथमपुरुष मध्यमपुरुषः उत्तमपुरुषः रूपाणि कानि एतत् सर्वं पठितवन्तः अद्यदिनस्य विषयः अस्ति आत्मने आत्मनेपदीनां धातूनां परिचयः आत्मनेपदीनां धातू आत्मनेपदीधातुः आत्मने किम् एतत् सर्वं वयम् अद्यदिने तस्य परिचयः कृत्वा अनन्तरं तस्य उपयोगः कदा करणीयम् एवं सर्वं पश्यामः आरम्भे एकनिमिषम् अतः सुभाषितद्वयमस्ति एकमेकं एकम पठामः तत्र पश्यामः किं दत्तमस्ति सुभाषिते अस्माकं विषयस्य तत्र अवगमनं सम्यक्रीत्या भवेत् इति दृश्यते किं दृश्यते आं बेनि दृश्यते दृश्यते अधुना भगिनी भवती पठतु प्रथमं सुभाषितं पठतु प्रथमं केवलम् आम् वनस्पते वनस्पतेः वनस्पतेरपक्वानि फलानि रचिनोति यः न विन् विन्दते रसं तेभ्यो बीजं <laughs> चापि <चाथी> विनश्यति <आगे। laughs> तत्र रक्तवर्ण विन्दते इति अस्ति <laughs> <laughs> तत् <laughs> प्रथमता तु अर्थदृष्ट्या वनस्पतेरपक्वानि फलानि प्रचिनोति यः विन्दते न विन्दते रसं तेभ्यो बीजम् च अपि विनश्यति अत्र पश्यन्तु सर्वे तत् फिनोति इति रूपं वयं दृष्टवन्तः ति धातोः लट्लकार परस्मैपदिकोप विनश्यति तत् नश्यति अपि वयं पठितवन्तः वि उपसर्ग परन्तु तत्र चिनोति इति दृश्यते विनश्यति इति दृश्यते प्रथमपुरुषे एकवचनान्तरूपं परन्तु अत्र विन्दति इति न दृश्यते विन्दते इति दृश्यते कि कृते जानापी धानेपदी धाते यस्मेपदी धाक वय धाते वह प्रथमपुरवना प्रतय योजयापदी यदि धातु अस्त चेत प्रथमपुष एक प्रत्यय नौ, आ, इति प्रथमः विनश्यति परन्तु विन्दति अस्तु भवती अर्थदृष्ट्या किमपि वक्तुं शक्नोति वा परस्मैपति इत्युक्ते परस्य सुभाषितस्य सुभाषितस्य विश् वनस्तेर् वनस्पते वनस्पतेर्पक्वानि फलानि प्रचिनोति यः यः वनस्पतिद्वारा पक्वं फलानि भवन्ति किल तदेव चि प्रचिनोति यः न विन्दते रसं तस्य रसं न विन्दते तेभ्यः बीजं च अपि विनश्यति बीजानि विनश् विनाशनद्वारा एव फलस्य प्राप् प्राप्यं भवति इति अत्र एकः मुख्य अंशः वनस्पतेः अपक्वानि सन्ति अपक्वानि तत्र पक्व पक्वफलम् इति नास्ति यः एकः मनुष्य किं करोति अपरिपक्व इत्युक्ते अपक्वानि फलानि यः चिनोति नाश भवति कस्य नाशः भवति रसस्य नाशः भवति तथैव बीजस्य अपि नाशः एव अपरिपक्वीजं तत्र इत्युक्ते तत्र अन्रैड् फ्रूट्स् दुलक्स् आल्सो डिस्ट्रा Hmm. Hmm. थे थे? प्राप्ति न hmm. प्राप्ति भवति, भवति रस्ति नवती बीज नाशम कौती अस्त अत अपक्वा फला तक फल यदा भव तर चयन करीय सुभाषित उत्तम अस्त पर अथदृषा परंतु विंदते अस्माकम् अन्यदिनस्य विषये आत्मनेपथ्य धातु नातः तत् विन्दते इति विन्दते आत्मनेपदी विन्दधातु तस्य प्रथमपुरुष एकवचनान्तरूपम् अस्तु एतावत्पर्यन्तं धन्यवादः अग्रिमं सुभाषितं तत् औगस्ट् महोदये भवान् पठति वा न देवो वि वर्तते तत् पठति वा नदेवो वर्तते काष्ठे न पाष्टान्ये न मृण्मये भावे हि विद्यते एवः तस्मात् भावो हि करणम् उत्तमं तत्र रक्तवर्ण वर्तते विद्यते एतत् किमस्ति महोदय वर्तते विद्यते तर... तत्र वर्तति इति नास्ति वर्तते विद्यते इति नास्ति विद्यते किमर्थमस्ति एतत् अस्ति आत्मनेपदिधातु वर्त वृत इति मूलतः तत्र आत्मनेपदीप्रत्ययः विद्यते विद् धातोः कृते आत्मनेपदिप्रत्ययः यत् वयं दृष्टवन्तः गतसप्ताहे तत् किमस्ति परस्मैपदी प्रथमपुरुषे एकवचनं वदति पठति लिखति गच्छति परन्तु अत्र आत्मनेपदी यदि धातु अस्ति तदा भवति वर्तते विद्यते बिन्दते, भाषते स्पर्धते एधते एवं सर्वं किमस्ति भेदः तत् अनन्तरं पश्यामः इति आत्मनेपदिप्रत्ययः ते ते प्रथमपुरुष एकवचनान्तप्रत्ययः अधुना तत्र अर्थदृष्ट्या पश्यन्तु न देवो वर्तते काष्ठे न पाषाणेन मृण्मये तत्र देवः काष्ठे न वर्तते काष्ठे इत्युक्ते वुड् पाषाणे अपि न वर्तते मृण्मय इत्युक्ते अर्त् देट् इस् सोयि भावे हि विद्यते सो अवोट् एवर् अवर् फिलिङ्ग् फिलिङ्ग् इस् ओन्लि मेटर्स् एण्ड् नोट् द मटेरियल् भावे हि विद्यते देवः तस्मात् भावो हि कारणं सो इट् इस् अवर् ट्रस्ट् or our, our what do we say, our, our belief, huh? that, makes Haan, <coughs> yeah. so, that makes us feel the presence of God, presence of God, जयन्ती भगिनीक्स् आफ़् गोड्स् आफ़् डिविनिटि तत्र मटेरियल् इस् इन् मटेरियल् वट् इस् इम्पोर्टेण्ट् फिलिङ्ग् आफ् फिलिङ्ग् भाव भाव इत्युक्ते atmakam श्रद्धा अस्माकं विश्वासः एवं सर्वं कार्यं करोतु वर्तते विद्यते अत्र वर्तते देवः काष्ठेन वर्तते देवः पाषाणेन वर्तते देवः मृण्मयेन वर्तते देवभावे विद्यते तस्मात् भाव हि कारणम् एवं सुभाषितम् अस्ति अधुना अस्माकम् विषयः आत्मने परिधातवः पदिधातव, आत्मने आत्मनेपदिधातव तत्र रूपाणि कीदृशाणि तत् पश्यामः कथं भवति चेत् पश्यन्तु एतत् सर्वमस्ति लट् लकार प्रथमपुरुष एकवचनान्त द्विवचनान्त बहुवचनान्तरूपाणि तस्मात् प्राक् आत्मनेपदिधातवः परस्मैपदिधातवः भेदः कः कोऽपि वक्तुमिच्छति वा कः भेदः आत्मनेपदी परस्मैपदी परस्मैपदीते परस्य बोधनं बोधयति आत्मनेपदी इत्युक्ते अस्माकम् आत्मन् आत्मनि बोधयति इति मन्ये इत्युक्ते सत्यमस्ति यद्भवती उक्तवती तत् सत्यम् अत्र किं भवति आत्मनेपदि धातु यदा वन्द भाष विद कंप, यक्ष यत् सर्वं यत् मया लिखितमत्र तत् आत्मनेपदि धातु तत्र क्रियायाः फलं कर्तारं प्रति गच्छति पुनः एकवारं सर्वे शृण्वन्तु क्रिया क्रिया इत्युक्ते या क्रिया तत्र क्रियापदं क्रियापदं स्पष्टं करोति सा क्रिया क्रियायाः फलं कर्तारं प्रति गच्छति इत्युक्ते कर्ता एव प्राप्नोति अत्र वन्दते अहं वन्दनं करोमि तस्य क्रिया वन्दनक्रिया तस्य फलम् अहमेव प्राप्नोमि कम्पते तत्र कम्पते तत्फलम् अहमेव प्राप्नोमि परन्तु परस्मैपदी धातु यदा पश्यामः चेत् यदा लिखति अनन्तरं खादति तस्य कर्म खादनस्य कर्म लेखनस्य कर्म किं लिखति लेखं लिखति काव्यं लिखति पाठं लिखति परन्तु अत्र क्रियायाः फलम् आत्मनेपदी देट् इस् फोर् दट् action to be done for oneself for atmanah self paratmai whatever verbs or activities are indicated by the verbs they are used with, the, with an object i mean for parashmay padhi waha pe katrak karma padam asti eva for other it can be for serving other fruit of action goes to the i mean uh, not for self only huh. so fruit of action goes to the one who is acting that is atmane pada for the self atmane padi self serving paramaye padi other serving vanda bhash mahavatatra dhatwasanti vanda bhash sparda anantam tatra sparda sparda for example tatra sangharshe iti yadaham sangharsha संघर्षे स्थिति का मम मनसि एव सङ्घर्षः अस्ति अतः आत्मनेपदी अनन्तरं तत्र याचना नाथ इति नाथयाचना तत्र याचना करणीया इत्युक्ते आत्मनेपदी धातु स्पन्दन स्पन्द टु वैब्रेट् इतोपि आत्मनेपदी अनन्तरं तत्र हा इतोपि स्वद आस्वादने हा यदा स्वद आस्वादने इत्युक्ते टेस्टिङ्ग् टु टेस्ट् यदा अहम् एषा क्रिया करोमि तदा अहम् एव तस्य फलप्राप्तिं प्राप्नोमि खलु देट् इस् टु प्लीज़् मै टङ्ग् इस् मै ओन् सेटिस्फेक्शन् ऐ एम् डुङ्ग् इट् फ़ोर् मै सेल्फ् अस्तु अनन्तरं तत्र इतोपि मुद मुद मुद मोदते हा मुद हर्षे आनन्द हा हर्ष आनन्द तत् अहं स्वयम् एव अनुभवामि तस्य फलम् एतत् सर्वम् आत्मनेपदी धातुवः विषयः दीर्घः अस्ति बहू किमपि तस्मिन् विषये चर्चा भवितुमर्हति परन्तु इदानीम् अस्माकं विषयः भेदः कः एषः भेदः क्रियायाः फलं कर्ता एव प्राप्नोति आत्मनेपदी धातु क्रियायाः फलं कर्ता केवलं कर्ता न परस्मैपदि अन्येषां कृते अपि अस्ति परस्मैपदी पर। अधुना तत्र अस्माकम् अद्यदिने वयं प्रथमपुरुषे एकवचन प्रथमपुरुष द्विवचन प्रथमपुरुष बहुवचन एवं वयम् अद्यदिने तस्य एव अध्ययनं कुर्मः अत्र वीणाभगिनी भवती पठति वा वन्दते वन्दे ते वन्दन्ते इति पठति वा एकवचन द्विवचन बहुवचन वन्दते प्रथमपुरुष हा वन्दते वन्देते वन्दन्ते भाषते भाषेते भाषन्ते विध्यते विध्येते विध्यन्ते कम्पते कम्पेते कम्पन्ते ईक्षते ईक्षेते ईक्षन्ते एवं सर्वं परस्मैपदी आत्मनेपदी आत्मनेपदीरूपाणि तत् प्रथमपुरुष एकवचन एव वन्दते वन्दे ते वन्दन्ते एवं भवति ते इति अन्ते एवमस्ति ते इति अन्ते अधुना वीणाभगिनी भवति वदधातोः परस्मैपदी धातु तस्य प्रथमपुरुषरूपाणि स्मरति वा वदति वा वदधातु अस्ति चेत् वीणा भगिनी वदति वा भगिनि हा हा मध्ये मध्ये ध्वनि खण्डितः वद वदति परस्मैपदि धातु वदती, वदती, आ, हुँ, हुँ, हा रूपाणि प्रथमपुरुष एकवचन वदति वदति द्विवचनं वदतः वदन्ति वदतः वदन्ति वदति वदतः वदन्ति परस्मैपदी प्रथमपुरुष आत्मनेपदी वन्दधातु प्रथमपुरुष वन्दते वन्देते वन्दन्ते इति भवति अत्र भेदः कथ कथं वयं स्मरणे कथं भवति पश्यन्तु प्रत्ययात् केवलं प्र प्रथमपुरुष एवं वयं पश्यामः अस्ति चेत् ती ततः अन्ति एवं खलु वीणा भगिनी तीतः अन्ति आत्मनेपदी अस्ति चेत् किं भवति ते अन्ते अधुना स्पष्टमस्ति वा वदति वदतः वदन्ति वन्दते वन्दे ते वन्दन्ते स्पष्टमस्ति वा सर्वेषां हा भगिनि स्पष्टमस्ति एषः भेदः अस्ति अस्तु न एकवारम् अत्र गच्छामः अस्तु एतत् सर्वम् अस्ति अधुना एकमेकम् अगस्ट् महोदय भवान् स्पन्द धातोः कृते रूपाणि वदति वा स्पन्द प्रथमपुरुषे एकवचन द्विवचनं बहुवचनं स्पन्द इति आत्मनेपदी पाण्डते पन, उत्तमं बहु सम्यक् अधुना भन्द कल्याणे इति टु बि ग्लाड् इति भन्द वदति वा उत्तमं बहु सम्यक् बहु सम्यक् धन्यवादः धन्यवादः जयन्ति भगिनी जयन्ति भगिनी स्पर्ध स्पर्ध इति वदतु स्पर्धधातो कृते स्पर्धे स्पर्धेते स्पर्धन्ते पुनः एकवारं स्पर्धते स्पर्धेते स्पर्धन्ते सम्यक् एदधातो विषये विद् एद एद, एद एदते एदेते एदन्ते एधते एदेते एदन्ते सम्यक् नाथ नाथ बेनि नाथ याचना याना इति नादते नादेते नादन्ते नाथते नाथेते नाथन्ते अधुना क्लिन्द क्लिन्द इति नादतु क्लिन्द क्लिन्द बलिन्द क्लिन्दते क्लिन्देते क्लिन्दन्ते उत्तमम् उत्तमं नाध। विडाभगितिः भवति धन्यवाद स्वदधतोः विषये वदतु स्वद स्वदते स्वन्दे स्वदेते स्वदन्ते स्वदते स्वदेते स्वदन्ते अस्तु उत्तमं लाघ लाघ विषये वदतु लाघ लाघते लाघेते लाघन्ते ग्रन्थे वा ग्रन्थे ग्रन्थते ग्रन्थते ग्रन् ग्रन्थते ग्रन्थे ते ग्रन्थन्ते बहु सम्यक् अत्र पश्यतु ग्रन्थ तत्र मूलतः धातुः अस्ति कौटिल्ये ग्रथिकौटिल्ये इति धातु अस्ति तत् कौटिल्ये इत्युक्ते कौटिल्य इत्युक्ते टु बि टु बि विकीर्ण यदा अहं कुटिलतया आचरणं करोमि तत् मम तस्य फलम् अहमेव प्राप्नोमि खलो, कुटिलता इत्युक्ते टु बि नित्ये तदा आत्मनेपदी धातु एवमस्ति स्पष्टमस्ति सर्वेषां स्पष्टमस्ति वा स्पष्टमस्ति अधुना अत्र एकः श्लोकः अद्यदिने पठतु जयन्ति भगिनी पठ मनोजवम् आर्दतुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वादात्मजं वानरेयूतमुख्यं श्रीरामधूतं शरणं प्रपद्ये अत्र आत्मनेपदीरूपं किमस्ति प्रपद्ये प्रपद्ये अत्र एषः श्लोकः कस्य विषये अस्ति अञ्चनेयस्य विषये किं किं दत्तमस्ति भवती संस्कृतेन विवरणं ददातु मनोजवं मनोजवं मारुतूस्य वेगं मनस्य जपं मारुत ऐ मीन् वायुना अधिक वायुना समान इव वेगमस्ति जितेन्द्रियम् इन्द्रियाणां जितः जितः जितः भवति बुद्धिमतां बुद्धि बुद्धिमताम् अपि भवति वरिष्ठं श्रेष्ठः अभिभवति भवति वादात्मजं वायुपुत्र पुत्रः हनुमन्तः वानरयूतमुख्यं वानरयूतमुख्यं सः वान् वानरसेनायां मुख्यं भवति सः हनुमतः श्रीराम सः श्रीरामधूतः तर अहम शबत्ति शर गनोज मल्यु त्र मन मनस वेगो वेग तत्ल्यम वेगम यस्ते जीता सह अत्र बुद्धिमतां वरिष्ठं तत्र बुद्धिमतामिति विभक्ति का कोऽपि वदति वा बुद्धिमताम्मतां बुद्धि बुद्धि द्वितीयविभक्ति न षष्टि बहुवचनं बेणि इत्युक्ते बुद्धिमताम् आल् बुद्धिमतां ओके सो एक्सलेण्ट् मिज्रम् सो बुद्धि मिज्रम् वरिष्ठम् इति टप् मोस्ट् वातात्मजम् वात आत्मजम् आत्मजः इत्युक्ते पुत्रः वायुपुत्रः वायुपुत्र वायुपुत्र वातरयूथमुख्यम् इत्युक्ते अधिपतिः यूथ प्रमुखः इति एतादृशं स्थिरामध दा तत्मप प्रपद हा अपद्यकवना पर अहम पद्यते पद्ये पद अद वह एव पशा हा तत्र सन्देहः एक एकः क्लेशः भवति प्रपतिः इति परस्मैपतिरूपमपि भवति खलु प्रपद्ये इति न तत् पद इति आत्मनेपदी एव दातु भगिनि अस्तु अस्तु भगिनी अत्र किमस्ति एकनिमिषं तत् अद्य दिने परन्तु एकवारं पश्यन्तु एवमस्ति पश्यन्तु अत्र ah, लभते लभेते लभन्ते लभसे लभेथे लबद्वे. लभे लभामये लभामय हा अत्र प्रपत्ति इति रूपमस्ति तत् उत्तमपुरुष एकवचनान्तं पत् य किमर्थमस्ति इति तत्र दिवादिगणतः धातुः अस्ति दिवादिगण तत्र य आगच्छति तत्र किञ्चित् क्लता भवेत् अतः अहम् अत्र प्रथमपुरुषस्य वचनानि एव अद्यदिनस्य विषयः भवेत् इति परन्तु okay. तत्र सर्वाणि उपायाणि एवं चलति ते इति अन्ते mm. से इथे द्वे ए वहे महे हा तत्र परस्मैपदी कथं भवति टितः तिथमः अत्र ते इति अन्ते से इथे द्वे ए वहे महि mm. तत्र तत्र टैपो अस्ति लभावय mm. लभामय अस्तु अस्ति अन्त्यदिनस्य विषये मास्तु मूति विषय से श्लोक पढ़ि अधुना वय अस्कंक प्रति गुस्के आत्मने विषय अस्त आत्मनेपदीना धातूना पिचय लट्ल त्रातृलन अद्यन पाठ कथारूपेण अस्त अस्कंत अतीव मनोहारी कथास्ति तत्र भा भ्रातृमेलनं पश्यन्तु पुस्तके एवं सर्वं वयं कृतवन्तः हा एवं खलु परस्मैपदीनरूपाणि एवं सर्वं वयं कृतवन्तः अनन्तरं तत्र सङ्क्षेपगीता इति चतुर्दि दशः पाठः अस्ति तत वयं किञ्चित् कालानन्तरं पश्यामः सङ्क्षेपगीता अत्र वस्तुतः तत्र श्लोका सी तेपा रूपेण गीता कि अभवत एक वर्णनमस्तनम वा अथुना भ्रातृ मेलनम भ्रातृ भ्राता मेलन आत्मनेरीना धातूना पिचय लट्लो अश्यते कनुमस् एषः भीमसेनः भीम, भीम पाण्डवेषु भीमः तत्र दृश्यते कथा अस्ति पठामः अस्तु आगस्ट् महोदये आरम्भं करोति वा अस्तु भगिनी आत्मनिपदीनां धातूनां परिचयः लाट्लाकारः एतां mm. कथाम उच्चैः पठत mm. अवगच्छत च mm. वनवासम वनवासम् आचरन्तः mm -hmm. बदरिकाश्रामं बदरिकाश्रमम् आगताः hmm. द्रौपद्या सहिताः ते तत्र रमणीयेषु hmm. कानान् कानानप्रदेशेषु विहारन्तः hmm. स्मन् रमन्ते hmm. द्रौपदी द्रौपदी अपि एतावत्पर्यन्तम् अनन्तरम् अहं किञ्चित् वदामि अनन्तरं भवानेव अग्रिमे पठतु अत्र स्थितिः का अस्ति पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः पाण्डवाः बदरिका आश्रम इति आश्रमस्य नाम अस्ति बदरिका ते पांडवागता पांडवा वनवास आचरता आसन वनवास आचरत किम कदा द्यूत द्यूत पांडवा तज्यम वा धन तपत्ति सर्वगछति अपगछति अतः ते, ते, ते वनवास प्रथेऽनुसारेण नियमानुसारेण अधुना ते सर्वे वनवासं आचरन्ति स्म तत्र भ्रमणम् कृत्वा ते बद्रिका नामना आश्रमं सर्वे आगताः द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते तेषा त्रौपदी अ्रौपदी असत द्रौपद्या सहताे त्र युष्ठि भीम अर्जुन नकु सह देव पंच पांडवा काननप्रदेशेषु कानने इत्युक्ते अरण्यं फारेस्ट् इति रमणीयकाननप्रदेशः तत्र ते सर्वे विहरन्ति रमन्ते इति आत्मनेपदी क्रियापदम् रमधातु तस्य रमन्ते इति प्रथमपुष पुरुष बहुवचनान्तरूपम् अधुना अगस्टमहोदये भवान् रमधातोः कृते प्रथमपुरुष सर्वाणि त्रीणि रूपाणि वदन्ति वा कथं भवति रमते रमेते रमन्ते उत्तमं तत्र पाण्डवाः सन्ति बहुवचनान्तपदम् अतः रमन्ते एकः भीमः यदा अस्ति चेत् रमते भीमः सहित युधिष्ठिरः अस्ति चेत् रमेते अत्र सर्वे पाण्डवाः अतः रमन्ते द्रौपदीविषये अपि वाक्यमस्ति द्रौपदी अपि विहरन्ती मोदते इत्युक्ते सापि भ्रमणं करोति तत्र निसर्ग अत्र सृष्टिः उत्तमप्रकारेण तत्र सृष्टिं दृष्ट्वा सा अपि आनन्दम् अनुभवति मोदते द्रौपदी मोदते अत्र द्रौपदी अस्ति एकवचनान्तपदम् अतः तत्र मोदते इति अस्ति अधुना आगस्ट् मोदय हो कृते त्रीणि रूपाणि वदन्ति वा मोधते, उत्तमम् अधुना, अधुना अग्रिमे पठतु भवानेव पठतु अनन्तरम् अन्यु अपि एकदा द्रौपदी एकदा द्रौपदीवायुना आनीतम् एकं सुन्दरम् पुष्पम् ईक्षते तत् सौगन्धिकं कमलम् इति सा जानीते सा तादृशानि अधिकानि पुष्पाणि कामयते अतः सा पतिं भीमसेन प्रार्थयेत् प्रार्थयते प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति अदुना अत्र इक्षते जानीते कामयते प्रार्थयते एतत् सर्वं ते ते ते ते इति दृश्यते इत्युक्ते सर्वाणि रूपाणि प्रथमपुरुषे रूपाणि किमर्थं तत्र द्रौपद्याः विषये सर्वाणि रूपाणि प्रथमे वाक्ये द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् इक्षते इक्ष दर्शने तत्र सा अवलोकयति पुष्पम् ईक्षते दर्शनं भवति कस्य एकं सुन्दरं पुष्पं तत्र दर्शनं तस्य दर्शनं द्रौपदी द्रौपद्याः भवति वायुना आनीतम् इत्युक्ते तत्र वायुना तत्र तृतीया दृश्यते वायुना आनीतं तत् सौगन्धिकं कमलम् इति सा जानीते जानीते अत्र ज्ञा इति धातु धातु जानाति जानीते तत्र उभयपदीधातु किं नाम उभयपदी परस्मैपदीरूपाणि अपि प्राप्नोति रूपाणि अपि प्राप्नोति अतः तत्र जानीते इति रूपम् उपयुज्य तत्र वाक्यं सौगन्धिकं कमलम् इति सा जानीते तत्र एकं सुन्दरं पुष्पं तस्याः पुरतः आगच्छति वायुना आनीतम् तत् सौगन्धिकं कमलमस्ति इति सा जानाति ता, सा तादृशानि अधिकानि पुष्पाणि कामयते सा इच्छति कामयते आत्मनेपदी प्रथमपुरुषे क्वचन कामयते सा इच्छति किमिच्छति अधिकानि पुष्पाणि अहम् इच्छामि इति सा इच्छति सा इच्छति कानि अधिकानि तादृशानि पुष्पाणि सा इच्छति अतः सा पतिं भीमसेन भीमसेनः तस्या तस्याः पति सा तं प्रार्थयति प्रार्थयते प्रार्थ अत्र सा प्रार्थनां करोति तत्र प्र उपसर्ग अस्ति अर्थ इति क्षुरादिगणार्थ प्रार्थयते अतः तत्र यः आगच्छति तत् अस्तु सा पतिं प्रार्थयति याचनां करोति किम् भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु तत् विनन्तिं करोति बहु अहं बहूनि पुष्पाणि इच्छामि कृपया भवान् आनयतु अस्तु वनवाससमये सर्वे पाण्डवाः तत्र द्रौपदी अपि तत्र मोदते आनन्दम् अनुभवति सर्वे तत्र आनन्दम् अनुभवन्ति द्रौपदी अपि तत्र आनन्देन एव विहारं करोति तदा तत्र एकं पुष्पं दृष्ट्वा सा इच्छति सा कामयते सा इच्छति अधिकानि पुष्पाणि सा लभ्येत् इति प्रि पतिम्बीमसेनं सा वदति अन्यानि बहूनि पुष्पाणि आनयतु इति भवति इतःपर्यन्तं स्पष्टमस्ति वा ओगस्ट् महोदय स्पष्टमस्ति अस्ति धन्यवादः धन्यवादः अग्रिमे वीणाभगिनी पठति वा अग्रिमे किं भवति हा भगिनि <laughs> भीमसेनः गदापाणिः सन् प्रतिष्ठते एव दिशं गत्वा सः पर्वते सर्वत्र मृगयते सर्वे प्राणिनः तम् कुतूहलेन निरीक्षन्ते अग्रे गतः भीमसेनः कदलीवनं आलोकते तत्र हनुमान् निद्रावश नि, निद्रावशगः आसीत् तः स्वर्गद्वारं आवृत्य शेते स्म भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते ततः भाषते किमर्थं मुख किमर्थं सुखसुप्तम् माम् प्रबोधयसि त्वम् त्वम् कः किमर्थम् आगतः एषः एषः देवलोकस्य मार्गः वर्तते अत्र मनुष्यानां प्रवेशाय अनुमतिः न विद्यते इति एतावत्पर्यन्तम् पश्यामः भीमसेनः गदापाणिः सन् प्रतिष्ठते गदा पाणिः गदा पाणिः इत्युक्ते किं भवितुम् अर्हति पाणयोः गदा अस्ति तत्र हस्ते, हस्ते गदा अस्ति हस्ते गदा धारयति प्रतिष्ठति इति तत्र प्रतिष्ठते अत्र सज्जः भवति इति वा तत्र गच्छति एव तत्र ताम् एवम् ताम एव दिशम सह दिश गंधमादनपर्वते मृगयते तिश गवते मृगयते हाँ सह मृगय तंधमादन पर्वत प्राप्ति पुष्पाणि आनय आनयतु इति द्रौपदी वदति अनन्तरं सा mm -hmm. आ, आ, तत्र सज्जः भवति गन्धमादनं पर्वतं यदा सः गन्धमादनं गन्धमादनपर्वतं प्राप्नोति ततः mm -hmm. सः सर्वत्र मृगयते इत्युक्ते तत्र प्राणिनः सन्ति mm -hmm. मृगयते इति मृगयते तत्र अन्वीक्षते इत्युक्ते तत्र सः सर्वत्र मृगाः पश्यति इति मृगयति इति नामधातुः एव अस्ति सः सर्वत्र मृगाः स्वापदाः प्राणिनः सः पश्यति सर्वं प्राणिनः अपि तं कुतूहलेन निरीक्षन्ते तत्र प्राणिनः सन्ति प्राणिनः अपि तस्य अवलोकनं कुर्वन्ति प्रतिष्ठते मृगयते निरीक्षन्ते निरीक्षन्ते अत्र किमभवत् बहुवचनान्तपदं बहुवचनान्तपदं प्रतिष्ठते किमभवत् एकवचनान्तपदं मृगयते एकवचनान्तपदम् ओके okay. सर्वे प्राणिनः mm -hmm. अपि तं कुतूहलेन निरीक्षन्ते तत् अवलोकनं कुर्वन्ति सर्वप्राणिनः अग्रे गतः भीमसेनः कदलीवनम् आलोकते इत्युक्ते किम वीणा भगिनी वक्तुं शक्नोति वा कदलीवनम् इति अग्रे भीमसेनः कदलीवनं गच्छतः आलोकते आलोकते इत्युक्ते कदलीवनं सः पश्यति इति इत्युक्ते तत् कदलीवनं सः पश्यति आलोकते अत्रापि लोक इति धातुः अस्ति आ इति उपसर्ग आलोकते इति रूपं हा अधुना एकवारं विना भगिनी स्मारयतु आलोकते प्रथमपुरुषे एकवचनान्तरूपम् अन्यानि रूपाणि कथं भवति वदति आलोकते अस्तु भगिनि आलोकते आलोकेते आलोकन्ते उत्तमम् तत्र सः किं दृष्टवान् हनुमाननिद्रावशगः आसीत् निद्रावशगः हा निद्रावशगः निद्रावशग, निद्रायाः निद्रायाः नियन्त्रणे गतः हा निद्रावशः इति निद्रायाः नियन्त्रणे गतः इत्युक्ते हनुमान् तत्र निद्राम् अनुभवति निद्रावशगः आसीत् वशगः इत्युक्ते निद्रायाः नियन्त्रणे गतः वशगः इति सः स्वर्गद्वारम् आवृत्य शेते स्म स्वर्गद्वारम् आवृ आवृत्य शेते इत्युक्ते किं भवितुम् अर्हति स्वर्गद्वारम् आवृत्य शेते स्म सः इत्युक्ते हनुमान हानु, हनुमान् हनु हनुमः स्वर्गस्य द्वारे शयनं करोति शेते इति शिङ्ग् धातुः अस्ति तत्र शयनं करोति स्वर्गद्वारम् आवृत्य तत्र एव सः प्रसार्य तत्र चयनं करोति तदा भीमसेन किं कृतम् अग्रिमं वाक्यं किमस्ति भगिनि भीमः तस्य तस्य समीपं गत्वा सिंहनादंनादं कृतवान् उच्चैः ध्वनिं उच्चैः ध्वनिं करोति तस्य समीपे गत्वा किमर्थं तत्र सः सर्गद्वारम् आवृत्य शेते अतः निद्रावशकः सः निद्रायाः अधीनः सः अतः तत्र जागृतः भव इत्युक्ते सः सिंहनानं कुरुते तदा हनुमान, हनुमान किं करोति भगिनी तदा हनुमान? लोचने ईषद् उन्मील्य स्मयते नान। नान। स्मयते इति स्मयते इत्युक्ते स्मयते इति साधर्मस्मैल् इतिहा इति भार स्मयति इति लोचने ईषद् उन्मील्य इत्युक्ते लोचनद्वयं किञ्चित् लोचनद्वयस्य उद्घाटनं कृत्वा किञ्चित् ईषद् इति किञ्चित् टु सटन् एक्स्टेण्ट् नाट् कम्प्लीट्लि हा इषत् उन्मील्य उद्घाटनं कृत्वा सः स्मीतहाँ कौल स्म हाँ उच्च भीमसेन सिंहनाद कौती हनुम कि स्मित तत भाषते चुना भाषते हाँ अ भाषते रूपी वजतीी रूप भाषते हाँ भगि भाषते भाषेते भाषंते भाषते किमर्थं सुखसुप्तं मां प्रबोधयसि त्वं कः इत्युक्ते किं भगिनि किमर्थं मम मम निद्रां निद्रा भङ्गं करोषि भङ्गं करोषि हा भङ्गं करोसि इत्युक्ते योग्यं सुखसुप्तं सुखेन चयनं करोमि सुखसुप्तं पर्टिक्युलर् सुप्त इत्युक्ते तत्र निद्राम् अनुभवामि हा निद्रायाः सुखमस्ति तस्यां स्थितौ अहमस्मि तस्य आनन्दमहम् अनुभवामि किमर्थं मां प्रबोधयसि प्रबोधयसि इत्युक्ते किमर्थम् आगतः इत्युक्ते यु कम् अग्रिमे एषः एषः देवलोकस्य मार्गः वर्तते दिस् इस् दूट् टु द देवलोक अग्रिमे अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते ह्यू ह्यूमन्स् केनाट् एण्टर् थ्रू हियर् मनुष्याणां प्रवेशाय अनुमतिः एव नास्ति अत्र किमर्थं भवान् अत्र आगतवान् इति सः पृच्छति अधुना अग्रे अग्रे पठतु अनन्तरम् अन्यकोपि तदा भीमसेनः तदा भीमसेनः ब्रूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति हनुमान् वदति हनुमान् वदति अहं व्याधिपीडितः अस्मि अतः उत्थातुं मम शक्तिः न विद्यते यदि त्वया hmm. अवश्यं गन्तव्यं तर्हि माम लङ्घयित्वा गच्छ इति <laughs> hmm. hmm. hmm. hmm. hmm. तदा भीमसेन वदति तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने तव लङ् लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति अधुना सः वदति हनुमान् अत्र किमर्थं भवान् आगतवान् अत्र मनुष्याणां प्रवेशाय अनुमतिः न तत् स्वर्गद्वारस्य मार्गः अत्र मनुष्याणां प्रवेशः एव न भवति इति तदा भीमसेन ब्रूते वदती अहम कुंतीपुत्र अस्मसेन अस्गेण गंछा अगिनी गंत प्रत्यय क स्मती गंत प्रत्यय उठ मग प्रय्छकार उति मगम प्रय्छ मां मार्गं ददातु उत्तिष्ठतु इति तत्र mm -hmm. उत्तिष्ठ तत्र गेट् इति mm -hmm. किञ्चित् तत्र अहङ्कारभावनया सह वदतिष्ठति mm -hmm. mm -hmm. तदा हनुमान् किं वदति भगिनि हनुमान् वदति अहं व्याधिपीडितः अस्मि व्याधिना पीडितः उत्थातुं मम शक्तिः न विद्यते इत्युक्ते ऐ डोण्ट् हेव् द स्ट्रेन् टु गेट् अप्त्थातुं मम शक्तिः एव न विद्यते यदि यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घित्वा गच्छ इयलीत्वा गच्छयित्वा गच्छ लङ्घयित्वा गच्छ मम शरीरे शक्तिः एव नास्ति न विद्यते mm -hmm. तदा भीमसेनः किं वदति भीमसेनः वदति देहः परमात्मा भवति mm -hmm. परमात्मा देहं व्याप्य अवतिष्ठति गाड् रिसैड्स् इन् अवर् बाडि ऐ बिलीव् सो हि बिलीव्स् दी बिलीव् सो तव लङ्घनेन तस्य अवमानम् अवमाननं कर्तुं न उत्सहे ऐ डोण्ट् एन्करेज् मै सेल्फ् टु Dishonor the Bhagawan in you ah wonderful beautiful Anya, mm huh, -hmm. anya, otherwise mm -hmm. um, Just like how Hanuman uh, Jumped over the ocean. I would also mm -hmm. love jump over you and go he says three ah, it took this to her Kim Shin 30 I'm as strong as Hanuman लैक् हनुमान् यथा हनुमान् रामायणकाले सागरम् इव हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयं यथा हनुमान् सागरं लङ्घयित्वा गतवान् आसीत् रामायणसमये तथैव अहं गच्छेय अहमपि इत्युक्ते अहमपि गन्तुं शक्नोमि तादृशं सामर्थ्य मयि अपि वर्तते हनुमत इव इति अहमपि सामर्थ्यवान् तत्र ता तादृशं सामर्थ्यं यथा हनुमानस्य सामर्थ्यं तादृशं सामर्थ्यं मयि अपि वर्तते एषः तु अहङ्कार दुराभिमान एवं खलु उत्सहे इत्युक्ते तत्र न इच्छामि इति हा उत्स्थे अवमानं mm -hmm. कर्तुं न पृच्छे रैट्लि सैड् इस् धन्यवादः oh, huh? mm -hmm. उत्तममस्ति भगिनि अग्रिमे धन्यवादः अधुना पठतु जयन्ती भगिनी हनुमान् पृच्छति आमेन, आम् मीन् सहा mm -hmm. हनुमान् पृच्छति सः सः हनुमान् किमर्थं सः सागरं लङ्घि लंगी, लङ्घितवान् इति हनुमान् वदति हनुमाना हनुमान् कः किमर्थं सः सागरं लङ्घयित्वा गतवान् इति पृष्टवान् हनुमान् मम भ्रातः रामायणे सः अति व्यक् अतिविख्यातः हनुमान् मम भ्रातः हनुमान् मम भ्रातः अस्ति रामायणसमये सः अतिव्यक् अतिव्यख्यातः भवति इति भीमः उक्तवान् रामायण राम रामपत्न्याः सीतायाः अन्वेषणाय अन्वेषणाय सः शतयोजन शतयोजनविश्रुतं सागरं लङ्घयितवान् इति उक्तवान् रामायणसमये वेणी उक्तवती वा किमपि न न न न वदतु वदतु रामायणसमये रामायणकाल्ये रामस्य पत्नी सीता सीतादेव्याः अन्वेषणार्थम् सः हनुम हनुमान् सतयोजनविश्रु विश्रुतं सागरम् लङ्घयित्वा लंगा लङ्ाम् गतवान् इति रामः <laughs> <महा> अहमपि <उत्वान>. बले <laughs> पराक्रमयुद्धे च तेन तुल्यः वर्ते इति अहमपि हनुमान् तुल्यं पराक्रमः भवति मम कृते अपि युद्धे च तेन तुल्यः वर्तते इति साभिमानं वदति स्वस्य अभिमानं वदति भीमसेन अन्ते मार्गं प्रयच्छ इति पुनरपि वदति अन्तिमे अतः अन्तिमे भीमसेनः वदति अतः अहमपि आ, आ, हनुमा हनुमान् तुल्य पराक्रमः पराक्रमशीलः अस्मि अतः मार्गं प्रयच्छ इति पुनरपि एकवारम् उक्तवान् अत्र एकिञ्चित् वक्तुम् इच्छामि तत्र गुँ, वायुपुत्रः वायुपुत्रः हनुमान् इति मरुतः पुत्रः इति तथैव वायोः शक्तिसामर्थ्यात् एव भीमसेनस्य जन्म अतः तत्र मम भाता इति सः वदति भीमः अपि वायुपुत्रः हनुमान् अपि वायुपुत्रः अनन्तरम् अत्र रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान् योजना इत्युक्ते तत्र माप इति मेजर्मेण्ट् यूनिट् इति मापनं योजना इति पुराणे योजनम् इत्युक्ते हण्ड्रेड् मैल्स् इति दत्तवन्तः योजना एकम् एका योजना इति तत्र एकम् एकं तत्र सुभाषितमस्ति तुलसिदास भक्ततुलसिदासस्य तत्र पश्यन्तु तत्र हनुमान कृतवान, कृतवान् सत् शतयोजना विस्तृतं सागरं सः लङ्घितवान् परन्तु राम रामस्य कृते तत्र नलनील तत् कृतवान। कृतवान् भक्तः हनुमान् एतादृशः एतादृशं सामर्थ्यं भक्तिप्रभावान् प्राप्तवान् एतादृशं सामर्थ्यं तस्य भक्तिष्ठा वा अन्ये ये सन्ति तस्मात् कारणात् सः सामर्थ्यवान् सः सामर्थ्यम् प्राप्तवान् एतादृशम् तत् ढे mm. रघुवीरचले कूलबान्धे mm. रघुवीरचले कूडिगयो mm. हनुमान् mm. इत्युक्ते रामस्य mm. कृते तत्र पूलयोजना देट् ब्रिज् सेतुबन्धनं हा mm. सेतोः निर्माणम् आवश्यकम् mm. परन्तु हनुमान, हनुमान हनुमतः तत्र सेतोः कापि आवश्यकता एव नास्ति उल्लनम शक्य आसबाधेघुवीरजले गुम भक्त साम्यवा भक्ति प्रभा कथम वक्त अर् अहमपि <risque> बले पराक्रमे युद्धे सर्वत्र भगिनी अत्र बले, बले, बले पराक्रमे युद्धे विभक्तिविषये वदति वा वदामि भगिनि बले वर्तते खलु भगिनि बले कुत्र बले पराक्रमे युद्धे विभक्तिका सर्वेषु स्थलेषु बले बले बले सप्तमी एकवचनं पराक्रमे अपि सप्तमी एकवचनं युद्धे अपि सप्तमी एकवचनं तेन इति तृतीय एकवचनं वर्धते इति आत्मनेपथ्य प्रथमपुरुष एकवचनं तत्र वर्ते इति अस्ति वर्तते वर्तते अन्ते मार्गं प्रयच्छ पुनरपि सः मार्गं ददातु इति अग्रिमे पठतु हनुमान् हनुमान् वदति जरया मम उत्थातुं शक्ति नास्ति शक्तिः नास्ति त्वमेव अनुकम्पया एतत् भृच्छम् उपसार्य इति उपसार्य गच्छ इति अपसारि सारि सारी सारी सारी बेनि अपसार्य इत्युक्ते हनुमान् वदति वयोधिककारणेन अस्माकम् उत्थातुम् ऐ मीन् अहम् उत्थातुं शक्ति न मम कृते नास्ति अतः त्वम् एव मम पृच्छम् एतत् अनुकम्प्य गच्छ इति हनुमान् उक्त उक्तवन्तः इत्युक्ते अनुकम्पया इति कम्पेशन् टु मू अनुकम्पया इत्युक्ते तत् कम्पेशन्तु एतत् अपसारयतु इत्युक्ते भवान् एव करोतु एवं सर्वम् जरया इत्युक्ते वार्धक्यकारणात् वृद्धा <indfyllabanya> hmm. अवस्था जरा इत्युक्ते वृद्धा अवस्था जरा जरया तृतीया जरया मम उत्तमशक्ति एव नासी व्रात् वार्धक्य अवस्था अहं वृद्धः वार्धक्य mm. अवस्था कारणात् मम शक्तिः mm. एव नास्ति भवान् mm. वा करोतु यत्किमपि करणीयमस्य अनुकम्पया एतत् पुच्छम् mm. मम mm. पुच्छम् mm. अपधाय अग्रिमे mm. भीमसेनः पुच्छे पुच्छे गृहीत्वा एतत् वानरम् यमसदनम् यमसदनम् प्रेषयामि इति मनसा mm. चिन्तयति भीमसेनः झटिति चिन्तयति एतस्य पृच्छे गृहीत्वा एतं वानरं यससदनं प्रेषयामि दूरं प्रेषयामि इति मनसि चिन्तितवान् यमसदनम् इत्युक्ते दूरं वागिनी किञ्चित् दूरं भगिनि यमसदनं वा रे इत्युक्ते गोड् आफ् डेथ् एवं करो सदनमित्युक्ते गृहं तत्र एव प्रेषयामि इति भीमसेनस्य दृष्ट्या एषः hmm. केवल एकः वानरः मर्कटः अतः सः चिन्तयति यमसेन प्रेषयामि अधुना hmm. अग्रिमे hmm. ततः अतः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान् एतः चिन्तितवान् साधारणे जयन्ति भगिनी सेकेण्ड् जयन्ति भगिनि यु रीड् द पठतु पाराग्राफ्लेन् ततः सः अवज्ञया वाम वामहस्तेन पिक्क्षम वामहस्तेन तंगदिभिः किचिन्न स्पोनातु सर अन्ने सर्वे म्यूट करुवंतु कृपया हा? मम फ्रेंड द नदुल्लु पातिया अम्मा इप्पो नಾಯಿ কইச்சுtangge irundhudu irundha Gitaveni mute podungale ek permission pacha Gita bah, bah, bhaagini, bahagini, da, uh, da <तैस्वारी> गीता भगिनी गीताभगिनी म्यूट् कृतवती भवती स्क्रीन्ते एकनिमिष आं बेनि अधुना दृश्यते वा आं दृश्यते बेनि स्क्रीन् अस्तु पठामि गृहीत्वा भीमसेनः भीमसेनः पुच्छे गृहीत्वा एतत् वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान् किन्तु तत् पुच्छं किञ्चित् अपि न कम्पते अधुना भीमसेनः बाहुभ्याम् पुच्छम् उक्षेप्तुं प्रयतते प्रयतते तथापि पुच्छं न कम्पते भीमसेनस्य शरीरम् सिध्यते पुनः hmm. पुनः प्रत्य प्रयत्नेनापि प्रयत्नेनापि सः विफलः जायते सः hmm. नितराम् लज्जते अन्ते hmm. सः हनुमन्तम् नमस्कृत्य प्रार्थयते कपिश hmm. कपिशाधूल कपीश, कपिशाधूल माम् क्षम्यत क्षम शम, क्षमताम् शम, माम् क्षमताम् वानररूपदृक् भवान् सिद्धः देवः गन्धर्वः वा कः इति पदतु अहं शिष्यवत् भवन्तं पृच्छामि पृच्छामि कृपया वदतु इति अधुना वदतु किं किं भीमसेनः प्रयत्नं कृतवान् हनुमन्तस्य पृच्छं गृहीत्वा एतत् वानरं यमसा यमसदनं इति मनसि चिन्तितवान् तत् अनन्तरं सः अवैज्ञ अवैज्ञया ऐ मीन् अविद्यया अविद्यया वामहस्तेन तस्य पृच्छं गृहीतवान् तत्र अवज्ञया इत्युक्ते आज्ञा इत्युक्ते तत्रडियन् दृश्यते आज्ञया अवज्ञया अस्तु अस्तु बेनि वामहस्तेन हनुमन्तस्य पुच्छं गृहीतवान् किन्तु तत् पृच्छं किञ्चिदपि न कम्पते अधुना तदनन्तरं भीमसेन भीमसेनः द्वयेन ऐ मीन् बाहुभ्यां पृच्छं गृहीतवान् हस्तद्वयमपि प्रयोगितुं प्रयत्नं कृतवान् तदापि पृच्छं न कम्पते भीमसेनस्य शरीरं सिध्यते भीमसेनस्य शरीरं सिध्यते मीन्स् ऐ मीन् हि कुटिन् डू एनिथिङ्ग् मेनि तत्र यं गीताबे गीतावेणी अगैन् अगैन् मीट् कृतवती कृतवती अस्तु आं बेनि इत्युक्ते अत्र भीमसेनः स्वेट्टिङ्ग् वा किं न दृश्यते इति भवति आमां त्वे भवति अत्र बाहुभ्यां बाहुभ्याम् इत्युक्ते वित् इस् बोट् हेड् हि ट्रैड् यु नो बहु हस्तद्वयेन प्रयत्नं कृत्वा द्वयेन उत्क्षेप्तुं तु अत्रापि उत्क्षेप्तुं क्षेपणं बाहुभ्याम् उच्चस्य क्षेपणं कर्तुं सः पुनः पुनः प्रयत्न अपि सः विफलः जायते पुनरपि सः प्रयत्नं कृतवान् किन्तु किमपि प्राप् फलं न okay. no no mm -hmm. प्राप्तवान् सः नितरां लज्जते सः भीमसेनः लज् लज्जां कृ अनुभवन्ति अन्ते सः हनुमन्तं नमस्कृत्य एकनिमिषम् अत्रापि जयन्ति भगिनी तत्र लज्जा इति लज्जा अपि एव धातु भवितुमर्हति खलु तस्य क्रियायाः फलं कर्ता एव प्राप्नोति अस्तु भगिनि अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते सः किञ्चित् चिन्तितवान् सः सामान्यः न न इति चिन्तित्वा प्रार्थयते नमस्कृत्य प्रार्थयते कपिशार्दुल शार्दूल इत्युक्ते शार्दूल इत्युक्ते कपीनां श्रेष्ठः शार्दुरि इत्युक्ते सिंह लायन् अस्तु अस्तु नरशार्दुष नरकेसरी एतत् सर्वं नरेषु बलवान् सिंहं सिंहमेव कपीनां सिंहम् एवं क्षमतां क्षमतां मां क्षमताम् वानररूपदृक् भवान् सिद्धः वानरूप वानररूपं स्वीकृत्य भवान् अत्र सिद्धः भवति भवान् देवः वा गन्धर्वः कः इति वदतु इति देवः गन्धर्व किन्नरः एवं सर्वं देवसयः अहं शिश्य शिष्यवत् भवन्तं पृच्छामि अहं भवतां भवतः शिष्यवत् भवामि अहं कृपया पृच्छामि वदतु भवान् कः इति अत्र पश्यन्तु तत्र सम्पूर्णतया भीमसेनः का अत्र भगवद्गीतायापि अस्ति खलु शिष्यस्ते अहं द्वितीयाध्याये अर्जुनः शरणागतभावनया तत्र पृच्छति मां मार्गदर्शनं करोतु भवन्तः विमशेन अपि वदति अस्तु उत्तमम् अन्तिमं तत्र अगस्ट् महोदय पठति वा तदा हनुमान् इति आरभ्य तदा हनुमान् स्वस्य परिचयम् उक्तवान् भीमसेनः भक्त्या तं नमस्कृतवान् हनुमान् प्रीत्य प्रीत्या तम् आलिङ्गीतवान् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामा रामावतरे स्वस्य यदृष्टादृशं शरीरं आसीत् तदृष्टादृशम् विशालं शरीरं दर्शितवान् न्तेर्भिः अनुगृह्य अन्तर्हितः अभवत् अत्र पश्यतु सर्वे अवस्तु महोदय तत्र तदा हनुमान् स्वस्य परिचयम् उक्तवान् स्वस्य परिचयम् उक्तवान् परिचयम् इत्युक्ते किम् अवस्तु महोदय परिचयम् इत्युक्ते अहं हनुमान् रामायणकाले अपि अहम् इन्ट्रोडक् कृतवान् इण्ट्रोडक्षन् कृतवान् इन्ट्रोडक्षन् आम् कृतवान. कृतवान् भीमसेनः कृतवान। भक्त्या तं नमस्कृतवान् अत्र आगस्ट् महोदय भक्त्या इत्युक्ते किम् भक्त्या विभक्तिशन् भक्त्या भक्तिभावनया तृतीया विभक्ति एकवचनं बहु सम्यक् नमस्कृतवान् नमस्कारं कृतवान् सः नतः भीमसेनः हनुमतः पुरतः सः भक्त्या नमस्कारं कृतवान् हनुमान् प्रीत्या तम् आलिङ्गितवान् प्रीत्या इत्युक्ते प्रीत्या इत्युक्ते किम् तृतीयविभागे एकवचनं प्रीति प्रीति प्रेम प्रेमभावना वित् आल् एफेक्षन् तम् आलिङ्गितवान् हि आल्सो गेव् वित् फुल् आफ़् अफेक्षन् हि गेव् हग् आलिङ्गितवान् इति हनुमानस्य भीमसेनः भक्त्या नमस्कारं कृतवान् हनुमान् प्रेमभावनया आलिङ्गम् आलेंगन दत्तवान् आलिङ्गनम् दत्तवान् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशम् शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान् अत्र पश्यतु यादृशं तादृशं यदा तदा यथा तथा यः सः यादृशं तादृशम् इत्युक्ते किम् अवस्थमोनय वदति वाक्यस्य अर्थः कः वदति वा ततः सः भीमसेन बै भीमसेन प्रार्थनां प्रार्थनां प्रेयर् इत्युक्ते एक्सेप्टन्स् आफ् द प्रेयर् एक्सेप्टेड् हि एक्सेप्टेड् भीमसेनस्य प्रार्थना इति एक्सेप्टिर भीमसेनस्य प्रार्थना अनन्तरं सः किं कृतवान् रामावतारे राम अवतरे श्रीरामावतार यादृशं शरीरम् आसीत् सोरि भगिनि ऐ किंता मास्तु वतार स्वस्य इत्युक्ते भीमसेन भीमसेनपुरतः स्वस्य इत्युक्ते हनुमतः यादृशं शरीरम् आसी तादृशं विशालं शरीरं, शरीरं दर्शितवान् अधुना स्थितिः का अधुना सः मर्कटरूपेण भीमसेनस्य पुरतः रामावतारे तस्य शरीरं कीदृशम् एवं विशालशरीरं खलु पश्यतु विशाल ह्यूज् बाडि अनुमतः ह्यूज् बाडी तत्र रामवतारे आसीत् विशालः शरीरः यादृशम् तादृशं जस्ट् एस् लैक् देट् यादृशं शरीरम् आसीत् रामावतारे तादृशं विशालं शरीरं दर्शितवान् सः प्रकटयति तादृशं शरीरं धृत्वा सः भीमसेनस्य पुरतः प्रकटयति ओके हि अगेन् आपियर्ड् इन् देट् ओरिजिनल् फार्म् आफ़् रामवतारं सर्वं धृत्वा सः स्वस्य प्रकटनं स्वस्य रूपस्य प्रकटनं पुरतः कृतवान् विशालं शरीरं दर्शितवान् अधुना स्पष्टमस्ति आगस्ट् महोदय आशीर्गृ्य आशीर्शीवचना आशीर्वचना अगृह्युक्ट आशीर्वचना दत्वा अतर्हत अभव अत डिस्पियर अतर्पियर् तीमसेन से पुत सह वानररूपेण आगतवान् भीमसेनस्य गर्वहरणं सः कृतवान् अनन्तरं सः अन्तर्हितः अभवत् इत्युक्ते हनुमतः प्रयोजनं किम् आसीत् भीमस्य गर्वहरणं करणीयम् इति तस्य प्रयोजनम् तत्र गर्वभङ्गः भवेत इति गर्व अहङ्कार इति भावनया सः वर्तनं न तस्य वर्तनं न भवेत अतः सह एवं सर्वं कृतवान् आशीर्भिः अनुगृह्य अनन्तरं सह अन्तर्हितः अभवत् इति कथा कथायाः माध्यमेन वयं सर्वं आत्मनेपदीनरूपाणि कीदृशाणि एतत् सर्वं पठितवन्तः ज्ञातवन्तः अग्रिमे वर्गे एतत् सर्वं वयं पठामः किं दत्तमस्ति अत्र कथं रूपाणि भवति मध्यमपुरुषः उत्तमपुरुषः रूपाणि कथं भवति प्रथमपुरुषस्य रूपाणि तु वयम् अवगतवन्तः तथैव अन्येषां रूपाणामपि वयम् अग्रिमे वर्गे अध्ययनं कुर्मः सर्वे वदन्तु एकमेकं एकम कथायाः विषये बोधः कः वदन्तु एकमेकम् वदतु विना भगिनी आरम्भं करोतु कह बोधः वदतु हा भगिनि एतस्य कथस्य बोधः अस्ति समपि इत्युक्ते सामर्थ्यविषयकः दुराभिमान् मा भवेत् इति स्वस्य hmm? सामर्थ्यविषयकः दुराभिमानः मा भवेत् जगति बहवः जनाः सामर्थ्यवन्तः सन्ति स्वस्य सामर्थ्यस्य विषये मिथ्या अभिमान् मातु इति एवं खलु आम् बेनि अस्माकं प्रति यः अस्ति तस्य सामर्थ्यं तस्य ज्ञानम् इति ज्ञानार्थं पूर्वम् अस्माकं कृते यत्किमपि अहङ्कारं भवति तत् अस्माकं प्रति यः तस्य असामर्थ्यं सर्वं ज्ञानार् ज्ञानार्थं परतः सर्वं विनाशं भवति तत् एकदा एक एक विषयं सूचनं भवति विनिसीता माता इति लायां तिष्टवती कलू, तत् समये हनुमान सीतायां कृते गत्वा अहं राम रामधूतः इति उक्तवान् तदनन्तरं सीतामाता उक्तवती रामस्य धूतः mm. वा भवान् इति आम् एकवारं mm. सीतामाताया दर्शनं प्राप् प्राप, प्राप् प्राप्तवान् खलु तदनन्तरं mm. सः रामस्य कृते आगत्य उक्तवान् mm. अस्ति अहं रामधूतः इति रामदासः रामदासः इति उक् तदेव अस्माकं मनसि किञ्चित् अवगच्छात इति स्वस्य स्थानं किम् इति स्वस्य स्थानं किम् इति ज्ञातवान् हनुमान् इति अत्र एका एका कथा आसीत् तदपि अहं स्मरामि अत्र यथा भवती उक्तवती समये त्र अयोध्यागरिया तषेक सरोह प्रचल तमें प्रचल आसी प्रचल आस तुत ये जान सी तरह ये जानकारी प्राप्त तत्म दायामी पूरा आग्छनु परतु हनुम त अनन्तरं श्रीरामप्रभुः तत्र पृष्टवान् आसीत् तं पृष्टवान् किं ज्ञातुम् इच्छति भवान् वदतु इति तदा सः उक्तवान् अहं द्वौ पदौ इच्छामि द्वौ पदौ इच्छामि इत्युक्ते तत्र पद इति आङ्ग्लभाषायां पोस्ट् इति वयं वदामः खलु पद इत्युक्ते पोस्ट् तत्र अच्छा ओके तत्र द्वौ पदौ इत्युक्ते मन्त्रिपदम् इच्छति वा अन्य कोऽपि पदम् इच्छति वा तत् न द्वौ पदौ इत्युक्ते श्रीरामचरणौ इति चरणे इति मम स्थानं चरणे इति चरणद्वयम् एव मम स्थानम् इति विचार तत् स्वच्छतया नम्रतया वर्तते अत्र अतः सः तत्र रूपं धृत्वा प्रकटितवान् आसीत् किमर्थं तत्र भीमस्य गर्वहरणं भवेत् इति अनन्तरं बहु किमपि कार्यं भीमसेनः कृतवान् आसीत् तत्तु भवति एव परन्तु गर्वहरण आवश्यकं अस्तु एककथा अन्य श्रेष्ठं सूचयति अन्यकथायां विषयः अपि सूचयति आमाम् आम् अस्तु सम्यक् धन्यवादः वयं समापयामः वदतु विना भगिनी शान्तिमन्त्रेण वयं समापयामः वदति वा पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छ्यति पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ श्रीकृष्णार्पणमस्तु श्रीकृष्णार्पणमस्तु धन्यवादाः धन्यवादा पुनर्मिलामः धन्यवादः धन्यवादाः रात्रिं राम